अथ पञ्चसप्ततितमः ततो ब्रवीन् महातेजाः सुग्रीभो वा नरेश्वरः अर्थ्यम् विज्ञापयञ्चापि हनुमन्तमिदम् वचः यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः नेदानीमुपनिर्हारम् रावणो दातुमर्हति ये ये महाबलाः लघवश्च प्लवङ्गमाः लंगतन्शु गृह्योल प्लवगर्षभा तथस्तंग आे रौद्रे तस् मुखे लाभा सोल्का जग्मस्ते प्लवगर्षभास्तर्हगण सद्रुता आरक्षस्थाक्षा सहसा विप्रदुद्रुवु गोपुराट्टप्रतोलीषु चर्यासु विविधासु च प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् तेषाम् गृहसहस्राणि ददाहुतभुक्तदा प्रासादाः पर्वताकाराः पतन्ति धरणीतले अगुरुर्दह्यते तत्र परम् सुचन्दनम् मौक्तिकामणयः स्निग्धा प्रवालकम् क्षौमम् च दह्यते तत्र कौशेयम् चापि शोभनम् आविकम् विविधम् चौर्णम् काञ्चनम् भाण्डमायुधम् नानाविकृतसंस्थानम् वाजिभाण्डपरिच्छदम् गजग्रैवेयकक्ष्याश्च रथभाण्डांश्च संस्कृतान् तनुत्राणि च योधानाम् हस्त्यश्वानाम् च खड्गाधनूम् शिज्या बाणा स्तोमराङ्कुशशक्तयः रोमजम् बालजम् चर्म व्याघ्रजम् चाण्डजम् बहू मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः विविधानस्त्रसङ्घातानग्निर्दहति तत्र वै नानाविधान् गृहांश्चित्रान् आवासान् राक्षसानाम् च सर्वेषाम् गृहगृध्नूनाम् हेमचित्रतनुत्राणाम् स्रग्भाण्डाम् बरधारिणाम् सीधुपानचलाक्षाणाम् मदविह्वलगामिनाम् कान्तालम्बितवस्त्राणाम् शत्रुसञ्जातमन्युनाम् गदाशूलासिहस्तानाम् खादताम् पिबतामपि शयनेषु महार्हेषु प्रसुप्तानाम् प्रियैः सह त्रस्तानाम् गच्छताम् तूर्णम् पुत्रानादाय सर्वतः तेषाम् शतसहस्राणि तदालङ्कानिवासिनाम् अदहत्पावकस्तत्र जज्ज्वाल च पुनः पुनः सारवन्ति महार्हाणि गम्भीरगुणवन्ति च हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च तत्र चित्रगवाक्षाणि साधिष्ठानानि सर्वशः मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् क्रौञ्च बर्हिणवीणानाम् भूषणानाम् च निःस्वनैः नादितान्य च लाभानि वेश्मान्यग्निर्ददाहसः ज्वलनेन परीतानि तोरणानि च काशिरे मेघजालानि घर्मगे ज्वलन परीता प्रचकाशि दावाग्निदीता शिखराणि महागिरे विमेशु प्रसुप्ता दह्यमना बरांगना त्यक्ताभरण संयोगाचुक्रुशु त्र चाग्निरीताेतुर्भव्रिवज्रहताव शिखरा महागिरे तानि निर्दह्यमानानि दूरतः प्रचकाशिरे हिमवच्छिखराणीव दह्यमानानि सर्वशः हर्म्याग्रैर्दह्यमानैश्च ज्वाला प्रज्वलितैरपि रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्चतुरगैरपि बभूवलङ्कालोकान्ते भ्रान्तग्राह इवार्णवः अश्वम् मुक्तम् गजो दृष्ट्वा क्वचिद्भीतोऽपसर्पति भीतो भीतम् गजम् क्वचिदश्वो निवर्तते लङ्कायाम् दह्यमानायाम् शुशुभे च महोदधिः छाया सलिलो लोहितो द इवार्णवः सा बभूव क्षये घोरे प्रदीप्ते नारीजनस्य धूमेन व्याप्तस्योच्चैर्विने दुषः स्वनोज्ज्वलनतप्तस्य शुश्रुवेशतयोजनम् प्रदग्धकायानपरान् राक्षसान् निर्गतान् बहिः सहसा ह्युत्पतन्ति स्म हरयोथयुजुत्सवः उद्घुष्टम् वानराणाम् च राक्षसानाम् च निःस्वनम् दिशो दश समुद्रम् विशल्यौ च महात्मानौ ताबुभौ रामलक्ष्मणौ असम्भ्रान्तौ जग्रहतुस्ते उभे धनुषीवरे ततो विस्फारयामास रामश्च धनुरुत्तमम् बभूवतु मुलः शब्दो राक्षसानाम् भयावहः अशोभत तदा रामो धनुर्विस्फारयम् महत् धनुः उद्घुष्टम् वानराणाम् च राक्षसानाम् च निःस्वनम् ज्याशब्दस्तावभू शब्दावति रामस्य शुश्रुवे वानरोद्घुष्टघोषश्च राक्षसानाम् च निःस्वनः ज्याशब्दश्चापि रामस्य त्रयम् व्यापदिशो दशा तस्य कार्मुकनिर्मुक्तैः शरैस्तत्पुरगोपुरम् कैलासशृङ्गप्रतिमम् विकीर्णमभवद्भुवि ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च सन्नाहो राक्षसेन्द्राणाम् तुमुलः समपद्यत तेषाम् सन्नह्यमानानाम् सिंहनादम् च कुर्वताम् शर्वरीराक्षसेन्द्राणाम् रौद्रीव समपद्यत आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना आसन्नम् द्वारमासाद्य युध्यध्वंचप्लवङ्गमाः यश्च वो वि तथम् कुर्यात्तत्र तत्राप्युपस्थितः तत्रा स हन्तव्योऽभिसम्प्लुत्य राजशासनदूषकः तेषु वानरमुख्येषु दीप्तोऽल्कोज्ज्वलपाणिषु स्थितेषु द्वारमाश्रित्य रावणम् क्रोध आविशत् तस्य जृम्भितविक्षेपाद्यामिश्रावै दिशो रूपवाणिव रुद्रस्य मन्युर्गात्रेष्व दृश्यत सकुम्भम् च निकुम्भम् च कुम्भकर्णात्मजाबुभौ प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह सह रावणशासनात् शशासचैव तान् राक्षसान् स राक्षसा गच्छताद्यैव सिंहनादम् च नादयन् ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः रक्षसाम्भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः चक्रुस्ते स प्रभम् व्योम हरयश्चाग्निभिः सह तत्र ताराधिपस्या च तयराभरण ज्वलिताद्याम भाषयत चंद्राभाूषणाभा च्रहालता हरिराक्षसैन भ्राजयामास त्र चाध प्रदीता ग्रहा सागर पुनः भाभी संसलश्चलोशुशुभेक पताध संयुक्त मुतमासी परशम भीमाश्वरथ मातङ्गम् नानापत्तिसमाकुलम् दीप्तशूलगदाख्गप्रासतोमरकार्मुकम् तद्राक्षसबलम् भीमम् घोर विक्रमपौरुषम् ददृशेज्वलित प्रासम् किङ्किणीशतनादितम् हेमजालाचित्रभुजम् यावेष्टितपरश्वथम् गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् घोरम् शूरजनाकीर्णम् महाम्बुधरणिस्वनम् तद्दृष्ट्वा बलमायातम् राक्षसानाम् दुरासदम् सञ्चचालप्लवङ्गानाम् बलमुच्चैर्णनाद च जवेनाप्लुत्य च पुनस्तद्बलम् रक्षसाम् महत अभ्ययात् प्रत्यरिबलम् तेषाम् भुजपरामर्शव्यामृष्टपरिघाशनी राक्षसानाम् बलम् श्रेष्ठम् परमशोभता तत्रोन्मत्ता इवोत्पेतुर्हर योथ युयुत्सवः तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् तथैवापतताम् तेषाम् हरीणाम् दशनैर्हतकर्णाश्च मुष्टिभिर्भिन्नमस्तकाः शिलाप्रहार भग्नाङ्गाविचेरुस्तत्र राक्षसाः तथैवाप्यपरे तेषाम् कपीरामसि भिश्चितैः प्रवरानभितो जघ्नुर्घोररूपानिषाचराः घ्नन्तमन्यम् जघानान्यः देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः किम् क्लेशयसि तिष्ठेति तत्रान्योन्यम् बभाषिरे विप्रलम्भितशस्त्रम् च विमुक्तकवचायुधम् समुद्यतमहाप्रासम् मुष्टिशूलासि कुन्तलम् प्रावर्ततमहारौद्रम् युद्धम् वानरराक्षसा दशसप्तेति राक्षसा राक्षसान् दशसप्तेति वानराश्चाभ्यपातयन् विप्रलम्भितवस्त्रम् च विमुक्तकवच्वजम् बलम् राक्षसमालम्ब्य वानराः पर्यवारयन् इत्यादर्शे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमः